नमो नमः नमस्कारः नमो नमः राधा भगिनी प्रार्थनाम् वदति वा सरस्वती नमस्तुभ्यम् वरदे कामरूपिणी विद्यारम्भम् करिष्यामि सिद्धिर्भवतु मे सदा शान्ताकारम् भुजकशयनम् पद्मनाभम् सुरेशम् विश्वादारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिभिज्ञानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम् ओ अस्तु धन्यवादः धन्यवादः धन्यवादः पुनः एकवारम् सर्वेषाम् स्वागतम् अधुना अस्माकं विषयः प्रचलति लङ्लकार परस्मैपदिरूपाणि तत् वयं दृष्टवन्तः गतसप्ताहे एकवारं तस्य पुनस्मारणं कुर्मः एकवारं हा तालिकां प्रति गच्छामः तद्दृष्ट्वा अनन्तरं हा तत्र कर्तरि लङ्लकार परस्मैपदिरूपाणि तथैव कर्तरि लङ्लकार आत्मनेपदीरूपाणि सन्ति कर्तरि लङ्लकार परस्मैपदं वयं कृतवन्तः गतसप्ताहे अद्यदिने पुनः एकवारं तस्य पुनरावर्तनं कृत्वा कर्तरि लङ्लकार आत्मनेपदीरूपाणि वयं पठिष्यामः अधुना रमा भगिनी नमो नमः भवति वक्तुं शक्नोति वा नम अस्तु एकवारं परस्मैपदे तालिका पठति वा अपठत् अपठत् ततः आरभ्य न दृश्यामि न दृश्यते एकनिमिषम् एकनिमिषम् अधुना दृश्यते वा आं भगिनी दृश्यते बै पठ कर्तरि लङ्लकारक परस्मै अपठत् अपठत् अपठताम् अपठन् अपठः अपठतम् अपठत अपठम् अपठाव अपठाम कर्तरि हा आत्मनेपदे अनंतरम पश्यामः एकवारम पस्मे पदे सर्वाणि रूपाणि एकमा एकवारं पठिष्यामः पुस्तके यद् दत्तत् अस्ति तत् पठिष्यामः हा हा भवती एव आरम्भं करोतु पुस्तके तत्र लठ्लकारवाक्यम् अनन्तरं लङ्लकारवाक्यम् इति रचना अस्ति तत् पठतु ैः पठत जानीत च वर्तमानकालः लट् सुरेशः भक्तियोगं पठति श्यामः गीत गीता तदा एव पठतु भूतकाले कथं भवति इति सुरे, सुरेशः भक्तियोगं पठति लट्लका भूतकालः लङ् लकारः सुरेशः भक्तियोगम् अपठत् श्यामः गीताप्रदर्शिनीम् पश्यति श्याम श्यामः गीताप्रदर्शिनीम् श्याम, श्याम गीता अपश्यत् ताः मथुरां गच्छन्ति गच्छन्ति गच्छन्ति ला मधुरा आगछन आगछन हाँ तब अश्य हाँ व्याप्र वर्तमान काल सूचय सुरेश भक्तिगम पठति पर भूतकाल सुशमपुरुष एक भूतका कथम होती अपठत तथा पश्य अश्य गी अगछन हाँ पढ़ती अपठत पश्य अश्य प्रथमपुर एक परं ग कि बहुवचना प्रथमपुर परंतु बहुवचना अग्रिमे यानी वाक्या सी तेषां विषयक तत् परस्मैपदीवाक्यानि न सन्ति आत्मनेपदीवाक्यानि सन्ति अधुना परस्मैपदी एतस्य पुनरावर्तनं कृत्वा एकवारं तालिकां पठिष्यामः अनन्तरं कुर्मः हा एतत् सर्वम् अग्रिमे परस्मैपदी लङ् लकाररूपाणि सन्ति एकवारं तस्य पठनं वयं कुर्मः अधुना आगस्ट् भवान् पठति नमो नमः भगिनी उच्चैः पठत लिखत चात् वचनम द्विवचनं बहुवचनं अचलात् अचलताम् अचलम् मध्यमपुरुष अचलः अचलतम् अचलत उत्तमपुरुष अचलम् अचलाव अचलाम दृश धातु उत्तमपुरुष अपश्यत् अपश्यताम् अपश्यन् मध्यमपुरुष अपश्यः अपश्यतम् अपश्यत उत्तमपुरुष अपश्यम् अपश्याव अपश्यामदातु अधिष्ठत् अति अतिष्ठताम् अतिष्ठन् अतिष्ठः अतिष्ठतम् अतिष्ठत अतिष्ठम् अतिष्ठाव अतिष्ठाम अत्र किञ्चित् वदामि एतस्य विषये तत् कथमस्ति ईष धातु अस्ति तत् ऐख्यत् इति भवति एकवारं पश्यामः कथं तत् ऐख्यत् भवति किञ्चित् तत्र व्याकरण अंश अस्ति पश्यन्तु अहं दृश्यधातोः अपश्यत् गमधातोः अगच्छन् चलधातोः अचलत् इत्युक्ते लङ्लकारभूतकालरूपाणि तेषां कृते अ इति प्रथमतः आगच्छति धातोः प्राक् अ इति आगच्छति तत्र एकं सूत्रमस्ति आडजादीनाम् इति अस्ति अजादिधातुवाना धातूनां कृते लङ् लुङ् अस्ति हलन्तधातूनां कृते अधुना अस्माकम् अन्तिममस्ति तस् ऐच्छतम् इषधातु अधुना अवश्यमहोदय तत् इषधातु आरम्भे स्वरः अस्ति वा व्यञ्जनमस्ति इ इति आ, इ इति इष धातोः प्रथमवर्ण तत् इ स्वरः अस्ति वा व्यञ्जनमस्ति इ इति स्वरः अस्ति खलु मम स्क्रीन् दृश्यते वा स्क्रीन् दृश्यते सर्वेषां स्वरः अस्ति वा व्यञ्जनमस्ति इ इति स्वरवर्णः वा व्यञ्जनवर्णम् स्वरः इत्युक्ते किम् अ आ इ ऊ इति व्यञ्जनम् इत्युक्ते किम् आम् इत्युक्ते इ स्वरः अस्ति वा व्यञ्जनमस्ति केवलम् इच्छामिट् वट् डु यु काल् फार् इस् अस्थ कि स्वर अस्थुना यदाइट वन्यको स्वर धातुपे अस्था प्रथम वर्ण अस्था अ परंतु आगम बगम अनन्तरम् अत्र आगच्छति एकः तुदादिगणे अन्तर्भूतः अतः तत्र अ इति विकरणम् आगच्छति अन्तिमं तत् वयं दृष्टवन्तः लङ्लकारस्य कृते त इति करणप्रत्यय अन्तिमम् अन्तिमं प्रत्ययः त इति अजुना आ त, में किम किंती आ इश इश किम कि आ इ मिलित्वा, आ इ मिलित्वा, मिलि त्रई बई वृद्धि तत्र आटश्च इति एकं सूत्रमस्ति तेन वृद्धि भवति आ इ मिलित्वा ऐ भवति न तु ए भवति ए इति परन्तु ऐ भवति अतः तत्र अस्माकं पुस्तके रूपं किमस्ति ऐच्छत् इति रूपम् अस्तु तत् ऐच्छत् ऐच्छ ऐच्छतम् ऐच्छत ऐच्छम् ऐच्छाव ऐच्छाम एतानि रूपाणि एतत् स्पष्टमस्ति वा सर्वे च अधुना पठामः अत्र आगच्छ अधुना आगस्ट् महोदये पुनः एकवारं पठति वा इष्टधातोः रूपाणि ईषधातु एताम् एच्चत, एचन् इच्छः एतम् एतम् ऐच्छाव ऐच्छाम किञ्चित् अवधानम् ऐ इति अस्ति ऐख्यत् ऐख्यताम् ऐख्यन् इति अस्ति हा तत् भवति न तु ए इति किञ्चित् तत्र स्मरणे भवेत् सर्वेषां कृते अस्तु धन्यवाद महोदय सम्यक् एतानि सर्वाणि परस्मैपदीरूपाणि अधुना अद्य विषयः आत्मने पदमिति आत्मनेपदी रूपाणि पश्यामः कर्तरि लङ्लकार आत्मनेपदं भारतीमहोदये भवान् पठति वा कर्तरि लङ्लकार आत्मनेपदं ततः आरभ्य आं भगिनि हा कर्तरी कर् कर्तरि आत्मने आत्मनेपदम् अभासत् अभासत अभाषे ताम् अभासन्त अभासथाः अबा अभाषेथाम् अभासद्वम् अब, अभाषे अभाषा वहे वहि अभाषा महि योग्यम् अधुना अत्र भाष इति धातु तस्य आत्मनेपदिरूपाणि तदा किं भवति पश्यन्तु तत्र किमासीत् अपठत् अधुना अभाषत अपठताम् अभाषेताम् अपठन् अभाषन्त अपठः अभाषथाः अभाषेथाम् अभाषध्वम् अभाषे अभाषावहि अभाषामहे तत्र भेदः दृश्यते द्वयोः मध्ये परस्मैपदी वा आत्मनेपदीरूपाणि अधुना भारतमहोदय व तत्र लभ इति धातु स्वीकरोतु लभधातोः कृते लङ्लकारात्मनेपदीरूपाणि वदति वा लभधातु अलभत् अलभत् हम अलभेताम् अलभेताम् अलभेताम् अलभेताम् अलभन्त अलभथाः अलभ लभेताम् अलभध्वम् अलभे अलभसे न अलबे योग्यम् अलभे अलभे ओके अलभ लभावहि अलभा महि उत्तमं सम्यक् अधुना इतोपि तत् कर्तृपदं पूरयति वा ओके okay. सः अलभत् उत्तमं सः अलभत् तौ अलभताम् अलभेताम् अलभेताम् ते अलभन्त उत्तमम् अग्रिमे त्वं अलभताः hmm. ते त्वंन्तरं यूयंलभताम् अलभेथा अलभेथाम् यूयम् अलभध्वम् अलभे आवां योग्यम् आवाम् अलभ अलभामहि उत्तमं वयम् अलभामहि बहु सम्यक् बहु सम्यक् समीचीनमस्ति भारतमहोदय धन्यवादः धन्य धन्यवादः अधुना राधा भगिनी राधा भगिनी हा यज् इति धातु आत्मनेपदिधातु तत् यज् धातु स्वीकृत्य कर्तुपदसहितवाक्यानि वदतु यदा कर्मपदस्य योजना अपि कर्तुम् इच्छति तदपि योग्यम् यजत तौ अयजेताम् ते अयजन्त त्वम् अयजताः युवां अयजेतां hmm. यूयम् अयजध्वं hmm. आहम् अहम् अयजे hmm. आवाम् अयजावहि hmm. वयम् अयजामहि <laughs> उत्तमं योग्यमहि धन्यवादः धन्यवादः <laughs> अधुना पुस्तकं प्रति गच्छामः अत्र पश्यतु अत्रापि तथैव वा, अन्यानि वाक्यानि हा ताः मथुरां गच्छन्ति तावत्पर्यन्तं वयं पठितवन्तः अधुना तत्र वर्तमानकालभूत्काल आत्मनेपदी हा आ, हा अम्बिकापटीमहोदय नमो नमः भवान् पठितुं शक्नोति वा भगिनी तत् क्षत्रियः युद्ध लभते ततः आरभ्य पठति वा उच्चैः पठत हा त्रीणि वाक्यानि तु वयं कृतवन्तः चतुर्थः तत् क्षत्रियः युद्धं लभते ततः आरभ्य पठति वा क्षत्रिय क्षत्रियः युद्धं लभते क्षत्रियः युद्धं क्षत्रियः युद्धम् अलभत कृष्णम् भजे कृष्णाम् अभजे अर्जुनः प्रज्ञावादं वादान् भाषते अर्जुनः प्रज्ञावादान् अभाषत सत्तिवा कर्तिवाः देवान् यजन्ते साक्तिवा सात्तिकाः देवान् भजते सात्तिकाः देवान् अयजन्त अयजन्त इत्युक्ते तत्र लभते ततः आरभ्य सर्वाणि आत्मनेपदीरूपाणि अत्र आत्मनेपदीरूपाणि तेषामपि तत्र तालिका अस्ति अभाषत एकवारं तस्य अपि पठनं करोति वा अम्बिकापतिमहोदय भाषब्रू द्वयोः कृते भाष भाष प्रथमपुरुषः अभाषत अभाषिताम् अभाषन्त मध्यमपुरुषः अभाषाः अभाषिथाम् अबैष् अभाषद्वम् उत्तमपुरुषः अबाषे अभाषा वहि अबाषा महि mm. uh, ब्रूधातु अनन्तर ब्रु दातु, दातु प्रथमपुरुषः अब्रूथ अब्रूवा अब्रूवाताम् वात, अब्रूवथ मध्यमपुरुषः अब्रूथाः mm. uh, मध्यमपुरुषः अब्रूवात् द्विवचनं बहुवचनम् अब्रूद्वम् उत्तमपुरुषः अब्रूवि द्वितीया अब्रूवहि अब्रू अब्रूवहि दोषमस्ति इति ्रू भिन्नप्रकारेण चलति हा तत् अब्रूवी अब्रूवहि अब्रूमहि एवं भवति तद् ब्रूधातो कृते भिन्नानि सूत्राणि सन्ति कथम् अत्र स्वीकृतं तत् भगवद्गीतायां ब्रूधातोः प्रयोगं वारं वारं दृश्यते अतः तत् अब्रूत इति ब्रू कथं भवति कथं चलति तद्धातुरूपाणि अतः तत् अत्र स्वीकृतं तत्र अब्रूवि अब्रूवहि अब्रूमहि एवं भवति योग्यमेव अस्ति तत् ज्ञात योग्यम् अधुना अग्रिमे अपि अग्रिमे किमस्ति तत्र हा धन्यवाद अवस्थ अम्बिकापतिमहोदय धन्यवादः अग्रिमे किमस्ति अग्रिमे तत्र द्वयोः रूपयोः एकत्रीकरणं कृत्वा हा इत्युक्ते आत्मनेपदिरूपाणि परस्मैपदिरूपाणि पश्यन्तु कथमस्ति यत्र तालिका प्रथमपुरुषः एकवचन द्विवचन बहुवचन प्रथमपुरुषे एकवचनं वदामि चेत् सः सा भवान् भवति इति भवति हा प्रथमपुरुषे एकवचन द्विवचनं किं भवति सः तौ ते तौ इति द्विवचनं यदि सा इति स्वीकुर्मः चेत् श्रीलिङ्गी सा ते ताः ते इति द्विवचनं भवति भवान् इति स्वीकुर्मः चेत् भवान् भवन्तौ भवन्तः तद्भवन्तौ इति द्विवचनान्तपदं भवति भवती इति वदामि चेत् भवति भवत्यो भवत्यः न दिवत् अतः तत्र भवत्यौ इति द्विवचनान्तपदं बहुवचने किं भवति तौ ते ते बहुवचनं सा ते ताः ताः इति बहुवचनं भवान् भवन्तौ भवन्तः भवन्तः इति बहुवचनं भवति भवत्यो भवत्यः भवत्यः इति बहुवचनम् अधुना एकमेकं स्वीकृत्य तदा पठ इति धातु पठधातु चलधातु परस्मैपदि अतः तत्र अपठत् अचलत् लभधा सेवधतु आत्मनेपदी कथम रूपम होती अलभत असेत हा अठत त हलत अचलत अलभत असेत हाँ अगरी में कथम अस्ट अपठता अचलता परंतु लभकृते अलभेता असेता बहुवचने अपठन् अचलन् अत्र किं भवति आत्मनेपदि अलभन्त असेवन्त इत्युक्ते अत्र योजना कीदृशी पश्यन्तु अस्माकं तालिका अस्ति खलु तत् प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष एकवचन द्विवचनम् बहुवचनम् अधुना तत्र पुस्तके किं दत्तमस्ति कथमस्ति योजना अपठत् अभाषत अपठताम् अभाषेताम् अपठन् अभाषन्त सः अपठत् सः अभाषत् तौ अपठताम् तौ अभाषेताम् ते अपठन् ते अभाषन् ते अभाषन्त एतादृशी अत्र योजना पुस्तके दृश्यते तस्य पठनमेकवारं कुर्मः प्रथमपुरुष मध्यमपुरुष तथैव उत्तमपुरुष एवं योजना अस्ति तत् अजना, अधुना रमा रमाभगिनी आरम्भं करोति वा पठति वा एकवचनं सः अपठत् तौ अपठतां ते अपठन् तह तौ अचलतां ते अचलन् सः अलबत तौ अलभेताम् ते अलबन. अलभन्त अलबन्त अलबन्त अलबन्त सः असेव असेवत तौ असेवेतां ते असेवन्त मध्यमपुरुषः पठति वा अस्त्वम् अपथ अपठन् युवाम् अपठतम् यूयम् अपठ अपठत त्वम् अचलः युवाम् अचलतम् यूयम् अचलत त्वम् अलभ अलभ अलभताः त्वम् सारि त्वम् अलभताः युवाम् अलभेताम् यूयम् अलभत्वम् अग्रिमे उत्तमपुरुष पठतु अहम् अपटम् आवाम् अपठाव वयम् अपठाम अहम् अचलम् आवाम् अचलाव वयम् अलाम अहम् अलपे आवाम् अ अलबा वयम वहि अहम अलबामहि अहम् असेवे आवाम् अस असेवा वहि वयम् असेवा वहि योग्यं योग्यं एकवारम राधा धन्यवादः तत हा एकवारं राधाभगिनी तत् एतानि रूपाणि पठति सर्वेषां प्रथमपुरुषः सा अचलत् hmm? ते अचलतां hmm? ताः अचलन् hmm? सा असेवत् hmm? ते असेवेतां hmm? ताः असेवन्त hmm? hmm? मध्यम मध्यमपुरुष त्वम् अचलः युवाम् अचलतम् यूयम् अचलत त्वम् असेवताः युवाम् असेवेताम् यूयम् असेवध्वम् अहम् अचलम् आवाम् अचलाव वयम् अचलाम अहम् असेवे आवाम् सेवावहि वयम् सेवामहि आम् एतावत्पर्यन्तं स्पष्टमस्ति सर्वेषां कृते आम् स्पष्टम् अस्ति अग्रिमे भारतमहोदय आरम्भं करोति अग्रिमं यथोदाहरणं धातुना रूपाणि लिखित धातुः एकवचनं द्विवचनं बहुवचनं hmm. पठदातु अपठत् hmm. अपठताम् hmm. अपठन् शुचधातु hmm. प्रथमपुरुष अशोचत् अशोच hmm. अशो अशोचताम् अशोचन् hmm. नम दातु मध्यमपुरुष अनमः अनम नम अनम नमतम् आम् अनमतं अनमत अनमत अस्तु योग्यम् अत्र पश्यन्तु अनमः अनमः अनमतम् अनमत् ओके अग्रिमे वदतु उत्तमपुरुष अव अवद् अव वदम् सत्य सम्यक् अवदम् अवदाव अवदाम उत्तमम् अवदम् अवदाव अवदाम चर दातु मध्यमपुरुषर पश्यन्तु अत्र अस्तु खलु अपठः तथैव अचरः अचरः अच अचरम् अचरम् अचरः एकनिमेष अचर अचरः कथमस्ति अचरः अचरतम् अचरत किम अचरतम् अचरत यथा अपठः अपठतम् अपठत तथैव पठस्थाने चर अचरः अचरतम् अचरत इति प्रथमपुरुष अतिष्ठ अतिष्ठत् अतिष्ठत् उत्तमम् अतिष्ठत् अतिष्ठत् अतिष्ठताम् अतिष्ठन् अतिष्ठन् उत्तमं योग्यन्यवादः धन्यवाद धन्यवादः अग्रिमे आगस्ट् महोदयः करोति वा रुधातुतः प्रयत्नं करोमि निश्चयेन मध्यमपुरुष उत्तमम् अहरत अग्रिमे ज्ञातु उत्तमपुरुष अजानाम् अजानामजानाम mm -hmm. mm -hmm. सम्यक् उत्तमम् अग्रिमे योगगन्धातु प्रथमपुरुष mm. आगच्छत् उत्तमम् आगच्छत् आगच्छताम् आगच्छन् योग्यम् पत् मध्यमपुरुष अपतः अपतम् अपत अपतत उत्तम अग्रिमे दृश उत्तमपुरुष अपश्यम् अपश्याव अपश्या भ्रम प्रथमपुरुष अभ्रमत् अभ्रमताम्भ्रमम् अभ्रमन् अभ्रमन् योग्यम् मध्यमपुरुष अस्मरः अस्मरतम् अस्मरत hmm. गेयि गायिपुरुष hmm. hmm. अगायम् अगायाव hmm. गायाम उत्तमं बहु सम्यक् उत्तमं धन्यवादः धन्यवादः अग्रिमे राधा भगिनी करोति हा अत्र राधा राधा भगिनी गै एतस्य अगायं कथम् अभवत् तत् पश्यामः तत् किञ्चित् तत्र अवगमनार्थं सत्य एतत् सर्वं नास्ति परन्तु पश्यन्तु कथं भवति सर्वे यत्र अवधानं ददातु गै इति धातु गायनम् इति अस्ति खलु गै इत्युक्ते टु सिङ्ग् अ इति उपसर्गः आगच्छति यतो तत् लङ्लकारः अस्ति अधुना अ आगच्छति अधुना प्रत्यय आगच्छति अम् इति तथैव ऐ अत्र सन्धिः भवति ऐकार अस्ति अनन्तरम् अकार अस्ति एवं लेखनीयम् ऐ इति ऐ इति न ऐकार अकार तदा सन्धि नाम्ना यान्तवान्त आदेशसन्धि इत्युक्ते किं भवति ऐ स्थाने आय् इति आदेशः भवति यान्तवान्त आदेश एचो यवायवः इति आय् आदेश तेन किं भवति मूलतः तत्र अकार अस्ति कका अय् स्थाने आय् अनन्तरम् अन्येषां वर्णानां तथैव ग्रहणम् अम् अ गा यायम् अस्तु अस्तु, अस्तु गई वा धै वा सर्वेषां तत्र यान्तवान्तसन्धि अन्तर्भूतः अस्ति केवलम् अवगमनार्थम् अस्तु अग्रिमे पठति वा प्रच्छ प्रच्छम प्रच्छ प्रथमपुरुषः अप्रच्छत अप्रच्यतां तत्र प्रेच्छा तरीगा प्रेच्छा तरीगा प्रेच्छा। ृच्छस्य रुकार भवति रेफ अस्ति मूलधातुस्वरूपे प रु रेफ अस्ति तस्य किं भवति रु भवति अतः अपृच्छ अपृच्छत् इति अपृच्छत् अपृच्छताम् अपृच्छन् योग्यम् श्रुता तु अश्रुणु मध्यमपुरुषः अश्रुणुः अश्रुणुतम् अश्रुत तत् तत् प्रथमपुरुषः अकथयत् अकथयताम् अकथयन् रमो मध्यमपुरुषः आत्मने प्रति अस्ति सत्यम् अर अरमेयत् आत्मनेपदी मध्यमपुरुष कथं भवति मध्यमपुरुष अरमतः अरमथाः हा तत्र किं भवति अत्र पश्यतु अरमेथाम् अरमे इति अस्ति खलु अरमेथाम् अतः अरमेथाम् अ अरमेथाः अरमेथाः अरमेथाम् अरमेध्वं तत्रापि अरमेध्वं सर्वेषु स्तरेषु अरमे आगच्छति अरमेथा वा अरमेथाम् अग्रिमे इषधातोः कृते ईक्ष इक्ष इति धातु ऐक्षे उत्तमपुरुष अग्रिमे अत्र पठतु इक्षे ऐषे किं भवति ऐक्षे एक्षा बहि अणु अे सम्यक् उत्तमम् ऐक्ष्यावहि ऐक्ष्यामही अत्रापि यथा अहम् इष्टधातो विषये उक्तवती तत्र आ इति आगच्छति अतः तत्र वृद्धिभूत्वा ऐ इति भवति ऐक्ष्यावहैक्ष्यामहि <laughs> अन्तिममस्ति तदपि करोतु असेवेतां क्षम्यताम् असेवत् असेवेता अस्तु अग्रिमे तत्र स्म इति भिन्नः विषय तत् अग्रिमे बुधवासरे कुर्मः अधुना blend? कथां प्रति गच्छामि अम्बिकापतिमहोदय आरम्भं करोति वा कथां पठति वा वयं नश्यति इतोपि पश्यन्तु शीर्षकं किमस्ति शैर्यात् भयं कुत्रचित् ध्वनिः श्रूयते अत्र कथं आगस्ट् महोदय भवान् करोति वा अस्तु <small> अस्तु चिन्ता मास्तु अस्तु धैर्यात् धैर्यम् धायरिया, अत्र धैर्यात् इत्युक्ते पञ्चम्यन्तं पदं पञ्चमी धैर्यात् भयं नश्यति इत्युक्ते यत्र यत्र इत्त धैर्यं धीरता इत्युक्ते करेश यत्र यत्र धैर्यं वर्तते तत्र यं न तिष्ठति भयं नश्यति एव इति किञ्चन राज्यं तत्र प्रजाः वर् सर्वाः सुखेन आसन् दुर्ग दुर्गस्य पार्श्वे अस्ति किञ्चन अरण्यं yes. कदाचित् कश्चन दो, चोर् घोरः uh, कश्चन घोरः राक्षसः तत् अरण्यं प्रति आगतवान् सह mm -hmm. uh, mm -hmm. राजराजधानीं प्रति आगत्य mm -hmm. दुर्द्वारसमीपे स्थित्वा mm -hmm. अये mm -hmm. राजन् अये राजन तव राज्ये वीरः कोपि अस्ति किं यदि स्यात् तर्हि तम् अत्र प्रेषय hmm. सः मा जयेत् मत्तः हतः वा भवेत् यदि भवता न कोऽपि प्रेष्येत hmm. तर्हि दुर्गाद्वारं बीत, बीत्वा अन्तः आगत्य समग्रं राग नगरं hmm. नाशयिष्यामि अहम् इति अगर्जत् ah. पश्यन्तु अत्र uh, हा भवान् वक्तुम् इच्छति वा किम् अभवत् अत्र अत्र गोररा आगच्छत् तत्र अरण्य स्थाने राजस्थाने अच्छति किञ्चित् वीरः अस्ति वा इति जयेत् सः मां जयेत, इत्युक्ते माम जयेत, मम मया सह युद्धं करोतु हा तस्य एव जय भवतु मां जयेत् सः विजयी भवेत् एतादृशः कोपिवीरह वीरः अस्ति वा भवतः राज्ये इति सः पृच्छतु पृच्छति अधुना सह मां जयेत् मत्तः हतः भवेत् मत्तः हतः इत्युक्ते मां जयेत् नो चेत् अहं तस्य वधं करोमि नो चेत् अहं तस्य वधं करोमि तस्य हननं करोमि मत्तः हतः सः अग्रिमे किं वदति वदतु अहम् आगत्य समग्रं नगरं सम्पूर्णनगरं नाश्यामि इति नाशयिष्यामि यदा भवता न कोऽपि प्रेष्येत इत्युक्ते तत्र प्रेषणं करोतु तत्र वीरः मम पुरतः आगच्छेत् इति नो चेत् अहं किं करोमि दुर्गद्वार भित्त्वा तस्य भेदनं कृत्वा अन्ते प्रवेशं कुर्म करोमि करिष्यामि नगरं नाशयिष्यामि नगरस्य विनाशम् करिष्यामि नो चेत् इति हा भूतकाल नाशयिष्यामि आगमिष्यामि विनाशं करिष्यामि एतत् सर्वम् अहं नाशयिष्यामि इति अगर्जत् अगर्जत् लङ्लकार गर्जधातु हा प्रथमपुरुष एक इति गर्जनां करोति सः राक्षसः एव सः मधुरवाण्यां वक्तुं न शक्नोति अतः गर्जना एव इति सः अगर्जत् अस्तु हा योग्यमस्ति महोदय धन्यवादः अग्रिमे हा अग्रिमे भारतमहोदय पठति वा एतस्य ततः आरभ्य भगिनि <laughs> एतस्य श्रवणात् एव सर्वे पिताः राजधान्याः नाशः न भवेत् कारण कारणतः राजा कश्चित् सुरं दलपतिं दुर्गात् बहिः बहिः प्रेषितवान् इत्युक्ते किम् अभवत् एतावत्पर्यन्तं वदतु हा ओके सो okay. एतस्य uh, so, uh, सर्वे uh, भीताः श्रवणात् भीताः राज्या ध्यान् ध्या धान्या द्यान, नाशं न भवेत् इति कारणः mm -hmm. राजा सुरं दलपतिं mm -hmm. दुर्गात् बहिः राजा प्रेषितवान् mm -hmm. सम्यक् भगिनी सत्यम् इत्युक्ते सर्वे भीताः तेषां मनसि भयम् उत्पद्यते हा भयकारणात् भयस्य कारणं किम् एषः तु राक्षसः सह।, सह हा वदतु राज राजधान्याः दा, नाशः हा राजधान्याः नाशः सः अन्तर्भागे प्रवेशं करिष्यति तत् सर्वेषां तत्र नगर नगरस्य नाशमेव सह करिष्यति अतः राजा शूरं दलपतिं हा तत्र पश्यन्तु तत्र राक्षसः किम् उक्तवान् आसीत् सः सः मां वा मत्तः हतः भवेत् सह माम जयेत् इत्युक्ते कश्चन शूरः मनुष्यः तत्र आवश्यकः अतः दलपति दलपति दलानाम् दला अधिपति हा पति इत्युक्ते तत्र अधिपति हा गणपति गणानाम् अधिपति भूपति भू भूमौ भूम्याः अधिपति भूपति दलपति नरपति गजपति गजानाम् अधिपति इति प्रमुखः इति अर्थ हा शूरं दलपतिं दुर्गात् बहिः प्रेषितवान् हा तत्र शूरः मनुष्यः तेन किं भवति mm. सः ययं प्राप्तुं mm. शक्नोति इति चिन्त विचिन्त्य सः प्रेषितवान् हा mm. अधुना अग्रिमे पठतु महो महोन्न तस्य तस्य राक्षसस्य दर्शनाथ एव सः वितह भीतः mm. सः खङ्गस्य उन्नय या, उन्नयनमपि mm -hmm. विस्मृत्य निर् निर्निमेषं राक्षसस्य mm -hmm. मुखमेव अपश्यत् mm -hmm. एतावत् पर्यन्तं वदतु किम् महो महोन्न तस्य राक्ष राक्षस्य राक्षसस्य दर्शनात् दर्शनात् सः दलपतिः पीतः राक्षसः वदतु वदतु नुगः आ, हा राक्षसः महोन्नतः इत्युक्ते महा उन्नतः हा विशालः राक्षसस्य शरीरं कीदृशं विशाल विशालं शरीरम् अनन्तरं मुखं कथमस्ति राक्षसस्य दर्शनम् अत्र पश्यतु राक्षसः हा कीदृशः मुखं मधुरमिति नास्ति मुखं तत्र तत्र मु मुखं राक्षसस्य मुखं सुन्दरम् इति न भवेत् खलु नुक, कौर्यं नुक, दृश्यते एवं सर्वं दृष्ट्वा एव दलपतिः दर्शनात् एव सः दलपतिः भीतः किमपि कर्तुं न सक्षमः दर्शनात् एव पश्यन्तु अत्र केचन छात्राः सन्ति परीक्षा अस्ति परीक्षा भविष्यति अग्रिमे मासे एव तेषां मनसि भीतिं जनयति ओ परीक्षा मास्तु अधुना सः दलपति किमपि प्रयत्नमेव न कृतवान् अभवत् दर्शनात् एव सः भीतः भयस्य उत्पन्नता केन केवलं दर्शनमात्रेण अग्रिम अभवत् सः खड्गस्य खगस्य उन्नयनमपि विस्मृत्य निर्निमेषं राक्षस्य मुखमेव अपश्यत् hmm. खगस्य सः खगस्य उन्नय खड्ग इत्युक्ते स्वोर्ड् इति खलु आयुधेन सह सः गतवान् आसीत् परन्तु खड्गस्य उन्नयनपि इत्युक्ते अप्लिफ्ट् अपि सः विस्मृतवानेव मनसि मनसि भयः भयकारणात् बहुवारमेवं भवति खलु मनसि भय आगच्छति तत् चिन्तनम् एव स्थगितं भवति तथैव निर्निमेषम् इत्युक्ते तत्र निमेषं निर्निर्निमेषं किण्टिन्युस्लि राक्षसस्य मुखमेव अपश्यत् सर्वं शस्त्रसज्जता सः अपि शस्त्रसज्ज सः अपि आयुधेन युक्तः सः अपि युद्धकुशलः परन्तु मनसि भयः अत्र भीति तस्मात् कारणात् किमपि चिन्तनम् एव तत्र स्थगितं स मुखम् एव अपश्यत् अग्रिमे किं भवति पश्यतु राक्ष राक्षसः तस्य दलपतेः mm -hmm. शिरः छित्वा mm -hmm. ओ राजन अवता प्रेषितः तु न सुर अपि तु बिरुः mm -hmm. राक्षसः पशुना तस्य दलपतेः दलपतेः mm -hmm. शिरः छित्वा धम् वधम् अकरोत् राक्षसः दलपतेः वधम् अकरोत् अनन्तरं क्षीरः इति इत्युक्ते मस्तकस्य राजन् भवता प्रसिद्धरः अपि तु भिरुः भीरुः इत्युक्ते भीरुता यस्मिन् भीरुता अस्ति धैर्यस्य अभावः शौर्यं नास्ति अपि तु धैर्यस्य अभावः भीरुः एव तत् कातरः एव इत्युक्ते धैर्यम् एव नास्ति शौर्यत्वमपि नास्ति भीरु अग्रिमे अग्रिमे किं वदति अग्रिमे वर्षे एतस्मिन् एव दिने अहम् अत्र पुनरपि आगमिष्यामि अग्रिमे वर्षे सेम् डे अहं पुन पुनरपि आगमिष्यामि वर्षे एतस्मिन् एव दिने अहम् आगमिष्यामि mm, mm. तदभ्यन्तरे कश्चित् mm. सुरं सज्जीकृत mm. अत्र प्रेषय् द mm. टैम् सुरं सज्जीकृत्य मीन्स् बी रेडि अत्र प्रेषयण्ट् mm. करेक्ट् इत्युक्ते एक एकवर्ष यावत् समयः भवतः mm. समीपे अस्ति अधुना तु भवत्सु कोऽपि शूरः एव नास्ति भवतः राज्ये एकः अपि शूरः मनुष्य नास्ति एव इति स्टेट्मेण्ट् सः कृतवान् कोऽपि न शूरः अधुना एकवर्षस्य समयः यावत् पर्यन्तं शूरं सज्जीकृत्य हा शूरा शूरस्य निर्माणं करोतु अनन्तरं तं शूरम् अत्र प्रेषय अन्यथा भवतः राज्यमेव विनष्टं भविष्यति इति उक्त्वा ततः निर्गतवान् अदर्वैज़् भवतः राज्य विनष्टं भविष्यति विनाशं करोमि इति उपसर्ग विनश्यति इत्युक्ते विनाशं करोमि सर्वस्य नाशं करोमि अहं नो यदा सूरस्य सूरमनुष्यस्य प्रेषणं न भवति तदा अंतरभागे प्रवेशं करिष्यामि राज्यस्य नाशं करिष्यामि इति उक्त्वा सः ततः निर्गतवान् इत्युक्ते राक्षसस्य हेतुः कः भयः भयस्य जननं सर्वेषां मनसि भयस्य जननं करणीयम् अस्तु उत्तममस्ति भारतमहोदयस्य धन्यवादाः धन्यवादः हा। अग्रिमे तत् ओगस्ट् महोदये भवान् पठति वा अनन्तरवर्षे अनन्तरवर्षे <coughs> राक्षस दूर्गद्वी उपस्थित किक्य सूचिते समये सूचि समक्षस दुर्गद्वार उपस्थितः एव इत्युक्ते किं वदति वा अनन्तरवर्षेक्स्ट् वीक् आम् आम् इन् दूचिते समये इण्डिकेटेड् टैम् सः उक्तवान् खलु एतस्मिन्नेव समये इतुक्ते सुचिते समये hmm. suggest... ah, uh, सूचना इण्डिकेटेड् टैिते समये सः राक्षसः दुर्गद्वार दुर्गद्वारसमिति आफ् दे द्वार् द्वार दुर्ग इत्युक्ते फोर्ट् तत्र राज्यमस्ति खलु अतः तत्र फोर्टिफिकेशन् आसीत् खलु फोर्टिफिकेशन् तत्र फोर्ट् इति अस्ति दुर्ग इति तत्र दुर्गद्वारसमीपे सः राक्षसः उपस्थितः एतदवसरे एतात् अवसरे अपि सः राज्ञा प्रेषितं शूरं निर् निर्दयम् अमारयात् दे किङ्ग् सेन्त् shuram shuram new hero hmm ah anna rayya acchu to the death to the death hmm <laughs> huh. satyam satyam yogyam uttamam huh? tat shuram nirdayam amaret he was so cruel that brutally killed iti amarayat nirdayam hmm rajnya presitam shuram इत्युक्ते तत्र राज्ञा राज्ञा इत्युक्ते तृतीया विभक्ति अस्ति हा बाय् इति अर्थः तत्तमपि सः अमारयत् अग्रिमं वाक्यम् अनन्तरवर्षेषु अपि एषा एव घटना पुनः पुनः वृता न्तर अनन्तरवर्षेषु हा वदतु नेक्स्ट् वदतु इन् द नेक्स्ट् इयर् अपि च एषा एव पुनः पुनः आवृत्ता पश्यन्तु आवर्तनम् इति एकः शब्दः आवर्तनम् इत्युक्ते रिपिटेशन् तत्र स्तोत्राणाम् आवर्तनम् अस्ति खलु तत् पुनः पुनः तत् वक्तव्यम् इति आवृत्ता घटना आवृत्ता इत्युक्ते अग्रिमे वर्षे अपि राक्षसः आगच्छति राक्षसः तत् शूरः कोऽपि मनुष्यः तत्र गच्छति तदनन्तरं तर, राक्षसः तस्य हननं करोति पुनः एकवारं वदति अग्रिमे वर्षे शूरमनुष्यस्य सञ्जीकरणं कृत्वा पुनः एकवारं प्रेषयतु नो चेत् अहं नगरम् प्रवेशं करिष्यामि नगरस्य विनाशं करिष्यामि पुनः पुनः तावदेव अनन्तरवर्षेषु अपि एषा घटना पुनः पुनः आवृत्ता अग्रिमे पठतु जनाः hmm. जनाः भीताः जाताः hmm. जाताः सर्वे जनाः भीताः कोऽपि तरुणः स्वस्य नीरत्वं प्रदर्शयितुं न ऐच्छत् इत्युक्ते कोऽपि तरुणः तरुणः युत् इति स्वस्य धीरत्वं प्रदर्शयितुं न ऐच्छत् ऐच्छत् इति रूपमेव वयं दृष्टवन्तः खलु लङ्लकारे ऐच्छत् इष इष धातु इष इत्युक्ते इच्छा अधुना शूरः तत्र पुनः पुनः एषा घटना शूरः तत्र आगच्छति राक्षसस्य पूरतह सह स्थगितः एव जातह तत्र किमपि कर्तुं न सक्षमः मनसि भीतिः एव भीती तेन किमभवत् सर्वेषां वदकारणात् तत्र धीरत्वं प्रदर्शयितुमेव न इच्छत। सर्वे तरुणाः तेषां मनसि भय अतः तत्र भयकारणात् कोऽपि तत्र धीरत्व यत्र भयः आगच्छति तत्र धीर धीरतायाः अभावः अदुना धीरत्वम अपी धीरत्वम अीरव अश्यते धीर नृश्य कोप तरुण तमिष्या राक्षस्य पुत मम पक्रम दर्शय तत्व न इच इच्छ इच्छा मनसी न आस अग्रिमे अत सैन्यं प्रविशतां संख्यायां महती न्यूनता जाता uh, okay. uh, न्यूनता, इत्युक्ते सङ्ख्यायाः सैन्यं प्रविशतां सङ्ख्यायां महती न्यूनता इत्युक्ते देट् नम्बर् हेज् बिन् डिक्रीज़् हा तत्र सैन्य सैन्यस्य कृते तत्र तरुणा तरुणः वा योद्धारः तेषाम् आवश्यकतां परन्तु कोऽपि न इच्छति एव धीरता एव लुप्ता तत्र धैर्यस्य अभावः जनेषु सर्वेषां जनेषु तत्र धैर्याभावः सङ्ख्यायां महती न्यूनता लिस्ट् नम्बर् इति स्थितिः अधुना भयकारणात् अग्रिममपि पठतु अनन्तरम् अन्यकोपि पठतु अथ एकदा राजकुमारः इदं दिशां देशम् आगतवान् सौ वन्देशीयः कृष्णराजकुमारः इत्युक्ते अन्यदेशीयः इत्युक्ते फारेनर् इति अन्यदेशीयुर Ah. Ah. Kumara, a certain um, young king कश्चन राजकुमारः सर्टन् योङ्ग् किङ्ग् आं राजकुमारः प्रिन्स् this एतं देशम् आगतवान् जनानां मुखे दृश्यमानां भीतं भीतिं लक्षितवान् कः महात् आश्चर्यम् अम्बभवत् हि रिसीविङ्ग् दि दि इन् द फेस् आफ् द पीपल् हि anabhavat he experienced uh angrat astariyam angrats so so variety it did mm -hmm. he was surprised to see that a particular kind of fear bhitim lakshitvani realizes ha huh. and then astariyam anumabhavat langlakar anumabhavat anuabhavat iti hmm अग्रिमं वाक्यं पठतु अन अनन्तरम् अन्यकोपि पठतु सः सः जनान् पृष्ट्वाः कारणमपि अज अजानात् पृष्ट्वा पीपल् पृष्ट भीतेः षष्टि विभक्ति भीतेः कारणं किम् इति सः पृष्टवान् एण्ड् देन् हि रियलैज् अजानात् लङ्लकात् पुनः एकवार धातु ajana athi understood the reason he asked the people finally he understood the reason karanam api ajanat hmm aduna ki basya astu dhanyavadah modaya uttamah prayatna ko uttamam bani ah. padantu dhanyavada ha dada bagini agrimam pathativa sah rajanam tata arambham ha bagini hmm सः राजानां्वा hmm. महाराज राक्षसविषये भीतिः मास्तु hmm. एतदवसरे अहमेव तं सम्मुखी सम्मुखीकरिष्यामि इति अवदत् hmm. hmm. इत्युक्ते आ, इत्युक्ते, hmm. आ, इत्युक्ते आ, राजकुमारः महाराजः अवदत् राक्षस्य करणं भीति मास्तु भीती आवश्यकं नास्ति एतदवसरे अहं राक्षसस्य वध करिष्यामि इति अत्र सम्मुखीकरिष्यामि अत्र किमस्ति भगिनी अत्र सम्मुखी भवती तत् कण्ठस्थीकरिष्यामि कण्ठस्थीकरोतु mm -hmm. अनन्तरं mm -hmm. शुक्लीकरोतु इति तत् शुक्ली इत्युक्ते मेकिट् वाहिट् इति शुक्लीकरोतु कण्ठस्थीकरोतु इति तत्र स्वि इति प्रत्ययः अस्ति तत् क्वि mm -hmm. प्रत्ययान्तरूपाणि क्रूधातु वा आ, भव भव भवति हा शुक्लि भवति कण्ठस्थी भवति इति तत् सम्मुखी सम्मुखम् इत्युक्ते फेस् फेस्ट। आम् तत्र परन्तु तत्र च्वि प्रत्ययस्य योजनेन तत्र नूतनः शब्दः सम्मुखीकरोमि सम्मुखीकरोतु सम्मुखीकरिष्यामि क्रू सः एव तस्य उपयोगः सम्मुखी इति भिन्नतया शब्दस्य योजना न भवति सदैव कण्ठस्थीकरोतु सम्मुखीकरोतु इति व्याकरणंश किञ्चित् अहम् एव सम्मुखीकरिष्यामि भीती मास्तु भयं मास्तु अहं तत्र राक्षसस्य सम्मुख, सम्मुखं गमिष्यामि इति सः वदति अस्तु में? निश्चिते दिने राक्षसः उपस्थितः hmm. सः राजकुमारः खड्गं गृहीत्वा hmm. दुर्गद्वारं, hmm. दुर्गद्वारम् hmm. उद्धाट्य बहिः hmm. आगच्छत् धैर्येण hmm. राक्षसस्य पुरतः अतिष्ठत् च hmm. राक्षसः तस्य ता, तद्दिने आगतवान् उपस्थितवान् तत्र दुर्गस्य बहिः तद्दिने राजकुमारः तस्य हस्ते खड्गं गृहीत्वा दुर्गस्य बहिः गतवान् धैर्येण तस्य पुरतः तिष्ठवान् स्थितवान् इति भवति स्था इति धातु तस्य अतिष्ठत् तिष्ठति इति रूपं तव तु प्रत्यन्तरूपं स्थितवान् आम् ओके अनन्तरम् अनन्तरं तावता राक्षस्य आकारः अर्धाशमितः जातः आसीत् राजकुमारः हुङ्कुर्वन् hmm. अग्रे अगच्छत् hmm. तावता राक्षस आकारः इतोपि क्षीणः जातः hmm. राजकुमारः प्रहाराय खड्गम् उन्नीतवान् hmm. तावता तु राक्षसः Uh, मुष्टिमीतः जातः आसीत् hmm. राजकुमारः खड् खट, खड्गाग्रेण राक्षसम् hmm. उरसि अविध्य अविध्यत् hmm. hmm. रक्तम् वमन् राक्षसः भूमौ अपतत् अधुना hmm. किम् अभवत् वदतु राजकुमारः राक्षस्य पुरतः स्थितवान् तावत् राक्षस्य तस्य राक्षस्य आकारः न्यूनं जातः हि बिकम् स्माल् अर्ध अर्ध अस्त् अर्ध अर्धशमितः स्ट्रेङ्ातः अधुना पश्यतु तत्र कथमस्ति अर्धांशमितः अर्धांश अंश इति अर्धं सो हाफ् आफ् द प्रीवियस् वन् अर्धांश अर्धांशमीतः इत्युक्ते परिमाणं इत्युक्ते तत् मेजर्ड् इति मितः ए तस्य शरीरम् अर्धः अभवत् राजकुमार तस्य अग्रे गतवान् हुङ्कार हुङ्कार कृतवान् तस्य आगच्छतु अहमपि जः अस्मि तावता राक्षस्य आकारः अधुना क्षीणः जातः अधुना अर्धशमितः जातः हि बिकम्स् इवन् स्मालर् क्षीणः जातः राजकुमार तस्य प्रहारं कृत् कृत्वा तस्य खड्गम् उन्नीतवान् तावता तु राक्षस् तस्य शरीर मुष्टि एव जातः हि बिकम्स् वेरि स्माल् मुष्टिमीत मुष्टिमित मीन्स् लैक् हेण्ड्फुल् हि बिकम्स् वेरि स्माल् प्रथमता तु अर्धांश अर्धांशमीतः अनन्तरम् मुष्टिमीतः स्माल् मुष्टि वेरि स्माल् राजकुमार तस्य खड्ग उपयुज्य तस्य ऊरि ऊरिः वदं कृतवान् रक्तं वमन् राक्षसः भूमौ अपततः रक्तः अभवत् राक्षसः भूमिः पतितवान् हि फाल्स्मन् क्तं वमन् तत्र शतृ प्रत्ययन्ते राक्षसः वमन अभवत् रक्तस्य रा, अनन्तरं भूमौ अपतत् okay. okay. योग्यं हा योग्यमस्ति भगिनी धन्यवादः अग्रिम रमा भगिनी वाक्यद्वयमेव परन्तु पठतु रमा भगिनी भवती राजकुमारः अवनम् अवनम्य तं पृच्छत् भोः कः भवान् इति अन्तिम अन्तिमश्वासत्यागात् अन्तिमश्वासत्यागात् ओ शमिदम् अन्तिमश्वासश्वासत्यागात् पूर्वम् सः राक्षसः अवदत् मम नाम अयम् इति किमभवत् अत्र विवरणं ददातु किम् अभवत् राजकुमारः अवनम् अवनम्य तम् अपृच्छत् भोः कः भवान् राजकुमार पृच्छ् पृष्टवान् भो भूमौ पतितवान् राक्षसस्य भवान् कः इति पृष्टवान् पृष्टवान् भूमौ पतितवान् राक्षसः इति अहं भयम् इति वदन् अन्तिमश्वासत्यागात् पूर्वम् इत्युक्ते किम् आफ्टर् कम्प्लीट् दूर्वं लिफ़्ट् आल् त्यागात् पूर्वम् अन्तिमश्वास अन्तिमश्वासत्यागात् पूर्वम् ऐ I मीन् mean, आन् द बार्डर् आफ् लैफ् एण्ड् uh, डेथ् सः तस्मात् पूर्वम् अन्तिमश्वासत्यागात् इत्युक्ते पञ्चमयन्तरूपं खलु अन्तिमश्वास तस्मात् प्राक् राक्षसः अवदत् मम नाम भयम् इति भयम् <laughs> अधुना भवती एव वदतु कः बोधः तस्मिन् प्रथम भगवद्गीतायाम् अर्जुनः भीतः जातम् अतः बहु हि राप् एव्रिथिङ्ग् अण्ड् हि साट् इन् अहं न करिष्यामि किमपि न कर्तुं शक्यते इति मम मनसि आगच्छति योग्यं योग्यं तत्र बहूत्र किं भवति छात्राणां कृते अपि वयं वयं बहुशूरः अर्जुनः बहुशूरः बहु वीरः वयम् आगच्छति अस्ति चेत्सुरं न स्वीकरोति बहुधा किं भवति अस्तु एतत् भयकारकमस्ति मनसि भयः एव तादृशं काठिन्यं तत्र न वर्तते परन्तु यथा उक्तवती तत् छात्राणां कृते परीक्षा भविष्यति ओ परीक्षा मास्तु परीक्षा मास्तु तत् मनसि भय एव तिष्ठति स्टेज् स्टेज आम् आं आम, तदापि व्यासपीठे यदा कोऽपि तत्र व्यासपीठं गमनीयमस्ति तदा न न अहं न करिष्यामि इति मनसि आगच्छति पन् तादृशं भयं भय मास्तु इति तत्र समस्या तादृशी महती समस्या इति नास्ति मनसि किम् आगच्छति ओ एषा समस्या तु कठिना कट, एव अहं कर्तुं न शक्नोमि इति सर्व परन्तु तादृशी स्थितिः नास्ति कर्तुं शक्नुमः वयं हा तत्र भयत्यागं भवेत् इति एकवारं वक्तव्यम् ओल्ड् ओल्ड् न्यूस् पेपर् दट् इस् आलील् न्यूस् पेपर्ट् आम् अद्य एव स्थिरम् योग्यं योग्यं तथैव धन्यवादः धन्यवादः अन्येषां अन्येषां किं मतं वदतु आगस्ट् महोदय भारतमहोदय राधा राधाभगिनी कथायाः विषये वदति वा तद् वयं कारणेन बहूनि कार्याणि अहं न, <coughs> न, न शक्नोति एकश्लोकं एक गीता ध्यानश्लोकम् uh -huh. करोति लङ्क्यते कृपया भगवतः कृपया कठिनकार्यमपि सिद्ध्यति इति वयं साधयितुं शक्नुमः अस्माकं प्रयत्नं तु आवश्यकमेव परन्तु कृपया सर्वं सिद्ध्यते इति भावः योग्यं योग्यं गुड् कोरिलेशन् गुड् गुड् धन्यवादः भारतमहोदय वदति वा भारतमहोदय राधाभगिति मनुष्यस्य शक्ति अर्ध्य hmm. करिश्य, करिष्यति आम् क्षीणः शक्तेः क्षीण तत्र क्षीणता भवति शक्तेः hmm. शक्तिहीनः मनुष्यः भवति केवलं भयकारणात् योग्यं बहु सम्यक् hmm. भय यदा मनसि आगच्छति चेत् शक्तिपातः भवति शक्तेः लोपः भवति योग्यं hmm. बहु सम्यक् तत मा भवेत् इत्युक्ते हा इत्युक्ते प्रसङ्गस्य यथार्थज्ञानम् आवश्यकम् अस्तु एषः प्रसङ्गः तत्र mm. खेदजनकः तु आह्लाद आह्लाददायकप्रसङ्गः इति न परन्तु अहं किं कर्तुं शक्नोमि mm. इन्स्टेड् आफ् हय मनसि तत् यदि विचार सम्यक् विचाराणां तत्र ग्रहणं यदि भवति चेत् भयं मास्तु परन्तु कथम् अहं तस्य कारणं किम् अहं किं कर्तुं शक्षमः इति चिन्तनं भवेत् सत्यं मनुष्यस्य पात्रता एव नश्यति यदा भयम् आगच्छति मनसि तदा योग्यं सम्यक् राधा भगिनी धन्यवादः राधा भगिनी वदति वा आं भगिनि यदि मम मनस्य भयं धैर्येणसे फेस् करोमि धैर्येण अहं तस्य सम्मुखीकरोमि सम्मुखीकरोमि तर्हि भीतिन्यूनं जातः सत्यं सत्यम् भयं मास्तु अधुना एतत् मया एषा कथा स्वीकृता किमर्थं तत्र कारणद्वयम् एकः तु एकं कारणमस्ति तत्र लङ्लकाररूपाणि सन्ति यत् वयं पठितवन्तः अद्य एव तेषां तत्र उपयोगं दृश्यते इति प्रथमं कारणं द्वितीयं कारणम् अस्माकं कृते बोधः कः अधुना वयं सर्वे सम्भाषणे प्रवीणाः सक्षमाः अतः संस्कृतसम्भाषणस्य भिन् मास्तु अद्यदिने अवष्टमहोदयः अपि उत्तमप्रकारेण सः विवरणं कृतवान् अहं स्मरामि पूर्वे सः अस्तु इदानीं मास्तु अनन्तरं वदिष्यामि परन्तु अद्यदिने सः एकमेकं एकम वाक्यं स्वीकृत्य उत्तमप्रकारेण विवरणं कृतवान् अतः अधुना सम्भाषणस्य वा भाषा अध्ययनस्य भीति मास्तु एवं खलु योग्यं खलु योग्यं सर्वेषां धन्यवादाः हा अम्बिकापतिमहोदय शान्तिमन्त्रेण समापयति वा कृपया आं भगिनि स्वस्ति प्रजाप्य परिपालयन्तां न्यायेन मार्गेण महिमहिषाः गोभ्रामेणय शुभमस्तु नित्यम् लोका समस्ता सुखिनो भवन्तु ॐ शान्तिशान्तिशान्तिः हरिः ओं तत्सदे श्रीगुरुव्यो नमः हरिः ओं धन्यवादः धन्यवादः भवतः शान्तिमन्त्रम् अहं वारं वारं स्मरामि तत् शान्तिमन्त्रस्य कृते भवान् आगच्छतु इति प्रतिदिनं प्रति धन्यवादः धन्यवादाः सर्वेषां धन्यवादः धन्यवादः